वरुणस्य सुषुपानस्य दशेन्द्रियम् वीर्यम् परापतत् तत्सकंसभ्य समसर्ते तत्सकंसपाकुंसकंसत्वम् पद्मिना देवेण प्रथमे हन्यसत्तायन्ता सरस्तत्या वाचा द्वितीये सवित्ता प्रथमेण तृतीये ओष्णा प्रशुभश्चतुर्थे दुछ बृहस्पतिना ब्रह्मणा पञ्चमे इन्द्रेण देवेन षष्ठे वरुणेण स्वया देवतया सप्तमे सोमेण राज्ञाष्टमे अष्टारूपेण नवमे विष्णुना यज्ञेनाप्नोत् यत्सकुंसवा भवन्ति इन्द्रियमेव तद्वीर्यम् यजमान आप्नोति पूर्वा पूर्वा वेदिर्भवति इन्द्रियस्य वीर्यस्यावरुद्ध्यै पुरस्तादुपसतांसौम्येन प्रचरति सोमो वेदे अन्तरा त्वाष्ट्रेण एतन्तुष्टरूपानि विकरोति उपरिष्टाद्वैष्णवेन यज्ञो हे विष्णुः यज्ञ एवान् अनः प्रतिष्ठति जामिव एतत्कुर्वन्ति यत्सद्यो दीक्षयन्ति सद्यः सोमम् पुण्डरी सृजाम् प्रयच्छत् पिलाभिया अङ्गिरजस्सु वर्गम् लोकयन्तः अप्सदे एषा तपसे प्रावेशयन् तत्पुण्ठरीकमभवत् यत्पुण्डरे सृजाम् प्रयच्छते साक्षादेवदेक्षा तपसे अवन्धे स्वामङ्ग्रीणादि विशालाक्षदा विराड अन्नम् विराड् विराजेवान्नाद्यमवर्धे पुष्करा भवन्ति धर्वाय दशमेया भवते अन्नाद्यस्यावरुध्यै शतम् राह्मणाः पिबन्दे शतायुः पुरुषश्रतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठते सप्तदशज्ञस्तोत्रम् भवति सप्तदशः प्रजापतिः प्रजापतेराद्ये प्राकाशापद्भविजवे ददाते प्रकाशमेवैनम् गमयते भजमगात्रे स्मै वासयति ऋमगुहोत्रे आयुध्यमेवास्मा उन्नयति अष्टम् प्रस्तोनुप्रतिहर्तृभ्या राजापत्यो वा स्मः प्रजापतेनात्यै द्वादशपृष्ठोहेर्ब्रह्मणे आयुरेवावरुन्धे वृषाम् मय्येन्द्रावरुणाय राष्ट्रमेव वश्यकः वृषभम् राम्भुंसिने ेन्द्रियाव्यगः वासीनेष्टा बोधुभ्या पवित्रस्यैते स्थूल्यवाचितमच्छावाकाय अन्तत एव वर्णमवेजत् सलड्वाहमग्नेधे बन्ध्यर्वा लड्वान् बन्धिरग्ने वह्मह्य यज्ञस्यावरुन्धे इन्द्रस्य सुषुपाणस्य त्रेधेन्द्रियम् वेद्यम् परापजत् श्रयन्तेयम् तृतीयम् सरस्वते तृतीयम् भार्गव भवता भवते श्रावयन्तेयम् ब्रह्मसामम् भवते वारवन्तेयमज्ञष्टामसामम् सारस्वतेरवाग्रन्थादे इन्द्रियस्य वीर्यस्यामरुध्ये श्रावयन्तेयम् ब्रह्मकामम् भवते इन्द्रियमेवास्मिन् वेर्यज्ञश्रयते वारवन्तेयमज्ञष्टामसामम् इन्द्रियमेवास्मिन् वीर्यम् वारयते वा एषदिशो नान्मजितोः बिन्दिशोऽनुव्या स्थापयन्ति निजापकेरेष्टयो भवन्ति इक्ष्वेव प्रतितितितितितितितितितितिष्ठत्यम्मादाय पञ्चदेवता विजति पञ्चदिशः इक्ष्वेव प्रतितितितितितितितितितितिष्ठति हविषो हविष इष्पामालः सत्यमभिधारयति यजमानदेवत्यो वे बृहस्पतिः यजमानमेव ते च सा समर्थयति आदित्याम् मदधा गर्भिणे मालभते मार्गे मार वृष्टिम् वष्टौहे विषन्ध्यैवास्मै राष्ट्रम् च समेजे दधाति आदित्ययामूर्पयात्तरया राष्ट्रयम विषमध्रादे उच्चैरादित्या आश्रावयते पाकुंसुमारुत्ये तस्माद् राष्ट्रम् विषमति वदति गर्भिण्या भवति इन्द्रियम् वे गर्भः राष्ट्रमेवेन्द्रियाव्यगः अगर्भामाभि मरुतः विषमेव दिरिन्द्रियामुकः देवासुराः सञ्जत्तासन् हे देवाश्विना पुरुषन् वाचः सत्यगुम् तन्निधाय अनुदेनासुरा नभ्यभवन् हे श्रुद्भ्याम् पुरोटा सन्तासारन् ततोपेते पाचः सत्यमवारुन्धते पुरोडा शन्तार्भपते अनितेनैव भ्रातुर्व्यान् विभूय वाचः सत्यमवरुन्धे सहस्पदे सत्यवाचे धनम् ओर्ममेवोजितम् उत्तरेणाभिगृह्णाति स्मृत्रे सत्यप्रसवाय पुरोडा सन्तारम् प्रसूपेतान्त भवन्ति आविदमेवैनम् गमयन्ते अथोधूतेभ्य एव न छिद्यतेर्दक्षिणा समर्थ्यै आज्ञेयमष्टाकपालम् जनपते तस्मात् शिशुरकरूपम् चालाः प्राञ्चो यान्ति सौम्यम् चलम् तस्मात् नव्यवसायाजयन्ते दे। सावित्रम् द्वादशकपालम् अस्मात् पुरस्ताद्यमानाकं समित्रा विरुन्धते बालकस्पत्यञ्चलम् सवित्रैव विरुध्य ब्रह्मणाय बालाद बाष्टमष्टाकपालम् रूपान्नेव तेन कुर्वते हेष्वातरम् द्वादशकपालम् तस्माद्रिहन्ये लयिताघ प्रत्यन्तः कुरु पञ्चालायान् सारस्वतञ्चलम् निर्वपते तस्मात् प्राविशतभापजन्ति औष्णेण व्यपस्यन्ति मैत्रेण निषन्ते मारु विसृता क्षैत्रबत्तेन पाचयन्ते आदित्येन आचते मासिमासेतानि हवेदंषि निरुप्याणित्याहुः तेनैवतोऽन्प्रयुङ्क इति असौ खल्वाहुः कर्सम्वत्सरञ्जे विष्यतीति षडेवकोर्वेद्यम् निरुप्यानि षडुद्धेद्यो तेनैवत्तोन्प्रयुङ्के उत्तर उत्तरेषाम्सरस्यैवान्तौ युणक्ति स्वर्गस्य लोकस्य चमष्टे इन्द्रस्य सुषभानस्य तत्फलमभवत् यद्वितीयम् तद्वदरम् यद्वितीयम् तत्कण्ठो यन्नस्तः सम्भः यदक्षोह ्रूणः यत्कर्णयोः सवृगः यवोर्ध्वः स सोमः यावाचि सासुराः प्रयास्रक्तव भवन्ति इन्द्रियस्यावरुद्धे प्रयाणि लोमानि कृषिमेवावरुन्धे वीर्यमेवावरुन्धे नाम्नादशमे को मे पुरुषे प्राणाः नाभिर्दशमे प्राणायन्द्रियम् वेर्यम् प्राणामेवन्द्रियम् वेर्यम् यजमान आत्मम् धत्ते द्विधेन क्रीवाच्छष्पाणि क्रीणादि अव एतदयोनहिरण्यम् यत्सीषम् अस्त्रेण पुमाने यत्क्लीपः रसो मोनसुराः यत्सौत्रा मणिसमर्थ्ये स्वाग्ने स्वादुनेत्याः स्वमेवेनाम् करोति श्वभ्याम् पक्षस्व हरस्पत्यै वक्षस्वेन्द्रन्मे वक्षस्वेत्याः पच्यते सकम् दृष्टा वसति हिरात्रे क्रेण स्वामापसति पुनादिपेविरापुनादिव्यावृत्ये पवित्रेण पुनादि पवित्रेण हि स्वामम् पुनन्ते वारेण शुष्वनेत्याह बालेण कि सोमम् पुनन्ते भाजः पोतः पवित्रेणेतणैतया पुनीयात् प्रशुद्धाश्चेता अधिपवितस्यैतया पुनीयात् अविरङ्गेत्य प्राजापत्यया गृह्णाति अनिलृत्तः प्रजापतिः प्रजापतेरात्यै एकयक्षा अस्मिनौ वे देवानाम् भिजोः ताभ्यामेवास्मै भेदजम् करोति सारस्वतम् मेघम् वा द्वे सरस्वती वागेवैनम् भिरज्यति ऐन्द्रमिषभुञाय यत्षयोपेष्वालभेत बहुधास्मा इन्द्रियम् दद्यात् भ्रादृमस्मे जनयेत् योपालभते एकसैवास्मिन्निन्द्रियम् वैर्यम् दधाति तास्प्रेम् सातिर्व्यञ्जनयति नैतेषाम् पशूनाम् पुरोडाशा भवन्तिडाशाश्चेत् युवकुंसरामस्मिनेति सर्वदे वक्ते या भवतः सर्वा एव देवता प्रीणाते दे। ब्राह्मणम् परिक्रीणीयादुच्छेक्षणस्य पातारम् ब्राह्मणाहुत्या उच्छेदश्च पाता यदि ब्राह्मणे परमेकवपायामवनयेत् सैव तदः प्रायश्चित्तेः यद्वैतोः ब्राह्मण्ये व्यर्थम् तदस्यै समर्थम् प्रथमश्च पुरोडाशाश्च भवन्त्य समध्यै ऐन्द्रः पशूनामुत्तमो भवते ऐन्द्रः पुरोडाशानाम् प्रथमः स्मे समीचे दधाति पुरस्तादनो याजानाः पुरोणादे प्रजवति पुरोणाशाः शूरेवावरुन्धे ऐन्द्रमेकादशकपालन्य इन्द्रियमेवावरुन्धे सावित्रन्तादशकपालम् प्रसोपोक्ये वारुणन्तशकपालम् अन्तत एव वरुणप्रयोजने पटपालक्षिणा तव एषाश्वगुम् सूते उताश्वतरम् उत सोम उतसुरासौत्रा वने समर्थेक्षमज्यालभते ब्रह्म मे देवानाम् बृहस्पतिः ब्रह्मणैव यज्ञस्य अभ्यर्थमेव नख्ये तस्य ग्रहम् गृह्णन्ति स्वमप्रतीकाशता निर्णायागम् समवनयतिन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठते दक्षिणेहो आपस्करस्य व्यावृत्ते हिरण्यमन्तराधारयति भूतादेवैरा शतमाणम् भवति शदाय पुरुषेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति यत्रैव शदाखण्डान् धारयति अन्यथा प्रतिष्ठयत्यैरेन्द्रियम् वीर्यम् गच्छति ोमादिपदे प्रणायाभिरुपतिष्ठतेवृन्धेपतिष्ठते श्रीवायतो लोके वितलः आनेव प्रीणादि अथोत्रेण वै यज्ञस्येन्द्रियाणि अध्वर्यु होता ब्रह्माष्ठन्ते यान्येव यज्ञस्येन्द्रियाणि हैदेवास्मैभेणजम् करोति अग्निष्टोममग्राहजे यज्ञमुखम् वा अग्निष्टोमः यज्ञमुखमेवारभ्यमाक्रमज अथेयश्चिपुंशपमा भवति ते श्रिपुंशद्वैदेवदाः तामेव आप्नोति अजामयिष्टतस्त्रिपुंसः तमेवाप्नोति त्रिकुंशलयस्तोमा नामयसा पूर्वम् यद्विषमास्त्वमानाः एता वा नज्ञः या वान्पवमानाः अन्तःश्रेष्ठन्वान्य यत्समाः पवमानाः एना चलः एलेखा पूर्वम् आत्मनैवाज्ञश्लोमे न धनोति आत्मना पुण्यो भवति प्रजा वा गुत्थानि मुखानि उपत्तायाव यागिरैः प्रतिबद्भवति आग् वै वायुः वायुनेवैजाभिषेकः सर्वासामेव प्रजानागम् सूयते सर्वागेणम् प्रजालायति वदन्ति एतमत्यन्तशक्ष्यपयित्याः आदित्या वै प्रजाः प्रजानामेवे च न सूयते च यज्ञमुखात् एसम्भार्या अक्रन् यदा अपरस्ववाचो अग्रिगैः तेनैव यज्ञमुखान् नयन्ते अनष्टगुत्वतमा भवते अनुष्टगोत्तमा वाग्वानष्ट वाचैव वा प्रयन्ते वाचोद्यन्ते उद्वदेऽर्भवन्ते उद्वद्वानष्टुभा रूपम् आनष्टुभाजन्यः तस्मादुद्वदेर्भवन्ते शौर्यनष्टगोत्तमा लोभे सपादेते नैरकम् सम उपनमते यः सामभ्यजेते पापीजामा भवते एतानि खलु लोके सामानि यत्पृष्ठानि यत्पृष्ठानि भवन्ति ऐरेव समान्नैते यानिरेव राजानागुम्सामाणि हैरमष्मिल्लोकलध्वाजे रा यानि मनुष्यराजानम्सामाणि हैरस्मिल्लोकलध्वाजे उभयोरेव देवलोके च मनुष्यलोके च एकविपुंसोऽभिजेदीयश्चमो भवति एकविपुंशके च मदीयश्च प्रथमः सप्तदशो चद्वारेकविपुंसः तरस राष्ट्रपुंसत्र सः श्रेयवेटन्मध्यतोऽभिरिच्यते तस्माद्वारे च विषाम् प्रियः मध्यदोऽभिरिच्यते यद्वागेन मतो दिशो नव्यास्थापयन्ति तु तत्सुवर्गम् लोकमभ्यारोहते प्रत्यवरोहेत् उद्वामाद्येण लोकम् प्रत्यवरोहते अथो अस्मिन्नेव लोकेन प्रतिष्ठत्यन्मादाय इयम् वैरजतः असो भरणे यदृग् भवतः आभ्यामेवेन उभयतः परिगृह्णाति अरुणस्य वा अभिरिच्यमानस्यापः इन्द्रियम् वीर्यम् निरभ्यन् यदृग्निर्घाताय श्रेन्द्रियः आयुष्येवेन्द्रिये आयुर्वे हिरण्यम् आयुष्यायरेणमभ्यरिक्षलन्ति हिरण्यम् एव अभ्यदक्षरन्ति पर्चो वैहिरण्यम् वर्गस्य एव अभ्यलक्षरन्ति अप्रतिष्ठा एष्याहोराजसूर्येण यजिरात्रेण यजते अथप्रतिष्ठा अथ संवत्सरमावत्सरस्याहो रात्राणि तावदेशस्य स्तोत्रीयाः त्रेष्टेमप्रतिष्ठते अभ्यष्टोमः प्रतिरात्र उत्तरम् नैवाहोरात्रयोः प्रतिष्ठते और्णवास्याम्बो रमहद्भवते यष्टगायामुत्तरम् नैवार्थमासयोः प्रतिष्ठते अमावास्यायाम्बो नमहद्भवते उदृष्टवुत्तरम् नैव मासयोः प्रतिष्ठते ये एव समानपक्षे पण्याहे स्यादाः कार्यम् प्रतिष्ठत्य अपशव्याद्विरात्रेत्याहुः नदे ते क्लेशे गायत्रम् चत्र इष्टुभम् च जगति मन्तर्यन्ति न तेन जगति कृतेत्याहुः विरे कुर्वन्तीति दे। यदा वा एषा हीनस्याः भजते सा नस्य तथैव जगदीकृ असवशव्यः विष्टर्वा एषद्य रात्रः एवम् विद्वान् विरात्रे न यजते देवास्मा उच्छति असौ नेवा अग्निष्टान्तहरति अग्निः सर्वा देवताः देवताः स्वेव प्रतिष्ठति दे भो प्रथमाप्तकः समाप्तः